अथ चुष्टित सर्ग तदुतियसिनो बहुशालिन कुंभकर्ण से वचनम शुक्रोवाच महोदर है कुंभकर्णकुलेकृतदर्शन अवलिप्तो न शक्नो कृत्यं सर्वदे कुंभकर्ण नया नौ त्वम् तु कैशोरका धृष्टः केवलम् वक्तुमिच्छसि स्थानम् वृद्धिम् च हानिम् च देशकालविधानवित् आत्मनश्च परेषाम् च बुध्यते राक्षसर्षभः यत्त्वशक्यम् बलवता वक्तुम् प्राकृतबुद्धिना अनुपासितवृद्धेण कः कुर्यात्तादृशम् बुधः यांस्तु धर्मार्थकामांस्त्वम् ब्रवीषि अवबोधुम् स्वभावेन न हि लक्षणमस्ति तान् कर्म चैव हि सर्वेषाम् कारणानाम् प्रयोजनम् श्रेयःपापीयसाम् चात्र फलम् भवति कर्मणा निःश्रेयसफलावेव धर्मार्थावितरावपि अधर्मानर्थयोः प्राप्तम् फलम् च प्रात्यवायिकम् इह लौकिकपारक्यम् कर्म पुम्भिर्निषेव्यते कल्याणि लभते काम आलुप्तमृति्यमच शत्रु हि साहस यदिवायते एक क्यभिया हेतु प्राहृतस्वया त्युपन्नं वक्ष्याम साधु चूर्व जनस्थवि बलाहता राक्षसा राघवन्तम् त्वम् कथमेको ये पूर्वम् निर्जितास्तेन जलस्थाने महौजसः राक्षसां स्तान् पुरे सर्वान् भीतानद्य न पश्यसि तम् सिंहमिव सङ्क्रुद्धम् रामम् दशरथात्मजम् सर्पम् सुप्तमहो बुद्ध्वा प्रबोधयितुमिच्छसि ज्वलम् तेजसा नित्यम् क्रोधेन च कस्तम् मृत्युमिवा सह्यमासादयितुमर्हति सर्वं सर्वम् प्रतिसमासने एकस्य गमनम् तात न हि मे रोचते भृशम् हीनार्थस्तु समृद्धार्थम् कोरिपम् प्राकृतम् यथा निश्चितम् जीवितत्यागेवशमानेतुमिच्छति यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तमा कथमाशंसेयोद्धुम् तुल्येनेन्द्रविवस्वतोः एवमुक्त्वा तु संरब्धम् कुम्भकर्णम् महोदरः उवाच रक्षसाम् मध्ये रावणम् लोकरावणम् लब्ध्वा पुरस्ताद्वैदेहीम् किमर्थम् त्वम् विलम्बसे यदीच्छसि तदा सीता वशगाते भविष्यति दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः रुचितश्चेत् स्वया बुद्ध्या राक्षसेन्द्र ततः शृणु अहम् द्विजिह्वः संह्रादि कुम्भकर्णो वितर्दनः पञ्चरामवधायैते निर्यान्तीत्यवघोषय ततो गत्वा वयम् युद्धम् दास्यामस्तस्य यत्नतः जेष्यामो यदि कार्यमस्तिनः अथ जीवति नः शत्रुर्वयम् च ततः समभिपत्स्यामो मनसा यत् समीक्षितम् वयम् युद्धादिहयिष्यामो रुधिरेण समुक्षिताः विदार्यस्वतनुम् बाणै राम नामाङ्कितैः शरैः भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ततः पादौ प्रपूरय ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव हतो रामः सह भ्रात्रा इति सर्वतः प्रीतो नाम ततो भूत्वा भृत्यानाम् त्वमरिन्दमा भोगांश्च परिवारांश्च कामान् वसुचदापया ततो माल्यानि वासांसि वीराणामनुलेपनम् पेयम् च बहुयोधेभ्यः स्वयम् च मुदितः पिब सर्वतो गते भक्षितः स्वसहृद्रामो राक्षसैरिति विश्रुते प्रविश्याश्वास्य चापि त्वम् सीताम् रहसि सान्त्वयन् धनधान्यैश्च कामैश्च रत्नैश्चैनाम् प्रलोभया अनयोपधया राजन्भूयः शोकानुबन्धया अकामात्वद्वशम् सीता नष्टनाथा गमिष्यति रमणीयम् हि भर्तारम् नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशम् प्रतिपत्स्यते सा पुरा सुख संवृद्धा सुखार्हा दुःखकर्षिता त्वय्यधीनम् सुखम् ज्ञात्वा सर्वथैव गमिष्यति एतत् मम दर्शनेन रामम् हि भवेदनर्थः इहैव ते सेत्स्यति सुखस्य लाभः अनष्ट सैन्यो ह्यनवाप्तसंशयो रिपुम् त्वयुद्धेन जयम् जनाधिपः यशश्च पुण्यम् च महान् महीपते श्रियम् च कीर्तिम् समश्नुते इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे चतुष्षष्टितमः सर्गः